नारायणीयं दशकं तर्टि फोर् मीटर् श्रद्धरा गीर्वाणैरर्ध्यमानो दशमुखनिधनं कोसलेष्वृष्यशृङ्गे पुत्र्यामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् तद्भुक्त्वा तत्पुरन्ध्रीष्वपि तिसृषु समम् जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरते नापि शत्रुघ्ननाम्ना कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयादो यादो भूस्तादवाचा मुनि मुनिकथितमनुद्वन्द्वशान्ताध्वघेदः नृणां त्राणाय बाण्णैर्मुनिवचनबलात्ताडकां पाठयित्वा लब्ध्वा स्मा द्रजालं मुनिवनमगमो देवसिद्धाश्रमाख्यं मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् बिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा राज्यं प्रादिष्ठधास्त्वम् त्रिभिरपि च भ्राद्र भ्रातृवीरैः सदारैः आरुंधाने रुशान्ते भृगुकुलतिलके सङ्क्रमय्यस्वते जो यादे यादोऽस्य योध्याम् सुखमिह निवः सन् कान्तया कान्दमूर्ते शत्रुघ्नेनैकदात्थो गिते मतुल्धिवासम तदार्धोषेक किल विषधाधीशपुत्र्यादो क्रिया यादु कामो वनमुजू रुध्यमार्गे गुह निलय जडाचिधारी ना वा सन्धी गाधिपी पुनस्त भरद्वाज मारा नद्वाक्योरिख मवस्चिटे गिरी श्रुवा पुत्रिखिम खलु भरद मुखास्वर्गया दतात सप्तो दत्त्वाम्बु तस्मै निदधितभरदे पादुकां मेदिनीं च अत्रिं नत्वाध गत्वा दण्डकं चण्डकायम् अत्वा दैत्यं विराधं सुगतिमकलयश्चारुभोश्चारभङ्गीं नत्वा गत्यं समस्ताशर निकर सपत्था कृतिं तापसेभ्यः प्रत्यश्रौषी प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ब्रह्मास्त्रे चाभिधत्ते पथिपितृसुहृदं वीक्ष्य भूयो जडायुं मोदाद्गोदात्तडान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या प्राप्तायाशूर्पणख्या मदनचलधृतेरर्धनैर्निःसहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा येन निर्लो ननासां दृष्ट्वैनामृष्टचित्तं करमभिपतितम् दूषणं चत्रिमूर्धम् व्याहिंसीरा शरानप्ययुध समधिकां तत्क्षणा दक्षतोष्मा सोदर्या प्रोक्तवार्ता विवशदशमुखादिष्टमारी च तन्माया बाणकाधं तन्मायाक्रन्दनिर्यापित भवदनुजां रावणस्ता महर्षितेनार्तो वित्वमन्धक् किमपि मुदमधास्तद्वधोपायदाभायस्तन्वीं विचिन्वन्नहृद दशमुखस् त्वद्वधूं मद्वधेनेत्युक्त्वा यादे जडायौ दिवमध सुहृदप्रादनो प्रेतकार्यं गृह्णानं तं कबन्धं जगनिधशबरीं प्रेक्ष्य पम्पातडे संप्राप्तो सम्भाक्तो वादसूनुं वृशमुदितमनाः वादालयेश सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द